मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेण्टि फ़ोर् मार्गशीर्षमासमाहात्म्ये साधुचरितवर्णनं श्रीगणेशाय नमः सूत उवाच भरद्वाजो द्विज कश्चिन्नाम्ना साधु भजने गणेशभजने प्रीतिसंयुक्तो भून्निरन्तरं जगाममुनिमुख्यं स एकदा भक्तिसंयुधः भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्विदः साधुरुवाच प्राप्तये स्वामिन् वदोपायं सुद्धिदं येनात्मानं गणाशीधो दर्शयेन्मे महामुने भरद्वाज उवाच मार्गशीर्षव्रतं पुत्र कुरुशीघ्रं समागतं तेनत्वं त्वं प्रियोत्यंतं प्रियोऽत्यन्तं भविष्यसि यवमुक्त्वा भरद्वाजो कथयामासभावदः विधियुक्तं व्रतम् पूर्णं गणेश पञ्चकैर्युदम् साधुस्तं नम्य तत्रस्तकारव्रतमुत्तमम् उपोषणपरो भूत्वा तोषयामास विघ्नपम् समाप्तिसम्भवे तत्र दिवसे गणनायकः द्विचरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् उवाचतं महाभागं पूजान्दे मुनिमुख्यकं भोजनं देहि मे विप्रतृप्तिकारकमुत्तमं तथेदि तं प्रणम्यादौ पुपूज भक्तिसंयुदः भोजयामासा भक्त्यास नानारसयुतान्नकैः स भुक्त्वा सकलान्नं तमुवाच क्षुदिधो भृशं देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेद् विचारमकरो विचारमकरोद्हृदि शतप्रस्थमिदं चान्यम् भक्षितं मे द्विजेनः तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो स्वयं मां चलितुं याधो गणेशो द्विजरूपधृक् पुराणेषु महाविप्राय कथितं तृप्तिकारकं गणेशस्यैकदुर्वाया भक्षणम् नात्र संशयः अद करिष्यामि तृप्तं दूर्वाः समन्विदः एवं विचार्य साधुः स दूर्वां चिक्षेप चान्धसि गणेशं हृदि सञ्जिन्त्यपायस्सम् गृह्य सत्वरः दूर्वया संयुधं तस्मै ददावन्नं सुभक्तिदः तृप्तो द्विजप्रसन्नात्मा तमुवाच सुहर्षिदः ज्ञातम्भक्तिरहस्यम् तु गणेशस्य मुने तेनाहं तृप्तिसंयुक्तसंशयो न कृतस्त्वया वरम् ब्रूहि महाभाग दास्यामि विनयाच साधुरुवाच यदि त्वं वरदो मेसि तदात्मानं प्रदर्शय गणेशस्त्वं न सन्देहो मम भाग्यात् समागतः तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपो भवत तं दृष्ट्वा हर्षितोत्यन्तं साधुसाधुगुणान्वितः प्रणम्य पूजयामास तुष्टावसकृताञ्जलिः गणेशभक्तिसंयुक्तसाश्रुनेत्रो महायशाः साधुरुवाच हे रम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने अनाकाराय देवाय साकाराय नमो नमः लम्बोदराय वीराय शूर्पकर्णाय धुण्ढये अनादये परेशाय गणेशाय नमो नमः स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे भक्तेशाय शुभक्रिया वै नमो नमः सर्वाकाराय सर्वादिपूज्याय परमात्मने ब्रह्मेशाय गणानां ते पालकाय नमो नमः निराकाराय सर्वेषां पूज्याय परमप्रियविघ्नेशाय महाविघ्नहारिणे ते नमो नमः मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः ब्रह्मणे विष्णवे शङ्कराय नमो नमः सप्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे चन्द्राय वरुणायैव यमाय ते नमो नमः अग्नये नैहृतायैव कुबेराय धराधर नराय पशुरूपाय नमो नागासुरायते। ते चरा चराचरमयायैव चरा चरा समाय सहजायैव स्वसंवेद्याय ते नमः योगाय शान्दिनाथाय शान्दिदाय नमो नमः किं स्तौमित्वां गणाधीक्ष योगाकार नमो नमः धन्योहं सर्वभावेन तवाङ्घ्रियुगदर्शनाद वरं देहि गणेशान तव भक्तिम् दृढात्मिकाम् एवं स्तुत्वा गणाधीशं साधुस्तम् प्रणनाम च तमुवाच गणेशानो भक्तं भक्तजनप्रियः श्रीगणेश उवाच मदीया भक्तिरुग्रादे भविष्यदि महामदे यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यदि त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनं महाभाग पठदां शृण्वदां सदा सर्वसिद्धिप्रदं पूर्णं प्रसादादिदम् परं नानाकार्यकरं भावि अन्धे स्वानन्ददायकं एवमुक्त्वा तर्दथे सौ गणेशो ब्रह्मनायकः साधुस्तं हृदि सन्ध्यात्वा भवत्तत्रैव संस्थितः नानाजना विप्रसिद्धिं प्राप्ता विशेषतः मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः अन्यच्चशृणु विप्रेन्द्रचरितं सर्वसिद्धिदं मार्गशीर्षभवं चित्रं श्रवणात्पठनान्नृणां एककैवर्तकच्चिन्नाम् न शम्भुरिधि स्मृदः स मार्गशीर्षमाहात्म्यम् शुश्राव गणपाश्रितम् समागदेवे मार्गशीर्षे स्नानम् कृत्वा महामतिः गणेशम् प्रणनामाध नित्यम् कुटुम्बपोषकः ततः परम् नृपस्यैव चकारसेवनम् सदा पौषे मृतश्च तम् धृत्वा काणेशाश्वपतं ययुः तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूवः मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः तदपि ब्रह्मभूतस्य बभूवव्रतसेवनाद एवं नानाजना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै इह भुक्त्वा भोगानन्दे स्वानन्दगामिनः किञ्चिन्नियमसंयुक्ता किं पुनर्विधिचारिणः इदं यशृणुया नित्यं मार्गशीर्षे नरोत्तमः पठेत्स सिद्धिसंयुक्तो भविष्यति निरन्तरं मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो कथितं किं पुनः श्रोतुमिच्छसि मुनिसप्तम ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे मार्गशीर्ष मार्गशीर्षमासमाहात्म्यसाधु चरित्रवर्णनं नाम चतुर्विंशोऽध्यायः ओम्